श्रीमद्भागवत् महापुराणं चतुर्थी स्कन्धः एकोविंशोऽध्यायः यत्पादसेवाभिरुचि तपस्विनाम् अशेषजन्मोपचितं बलं धियः सद्यः च नोत्यन्महमेधति सती यथा पताङ्गुशविनिश्रिता सरित पुमान विनिर्धृताशेषमनोबलपुमान् सङ्गविज्ञानविशेषविजवान् यदङ्घ्रिमूले कृतकेतन पुन न संस्कृतिं क्लेशवहां प्रपद्ये तमेव यूयं भजतात्मवृत्तिभि मनोवचकायगुणेष्वकर्मभिमायिनकां दुगाङ्घ्रिपङ्कजं यथाधिकारावसितार्ससिद्धयः असा विहानेकगुणो गुणोऽध्वरः पृथग्भिध द्रवव्यगुणक्रियोक्तिभिः सम्पद्य तीर्थाशयलिङ्गनामभि विशृदविज्ञानगुणस्वरूपतः तथा न कालाशयधर्मसङ्ग्रहे शरीर ये स प्रतिपद्य चेतनाम् क्रियाफलत्वेन विभुर्विभाव्यते यथा न लोदारुसु तद्गुणात्मकः अहो ममामीं वितरन्त्यनुग्रहं हरिं गुरुं यज्ञभुजामधीश्वरं स्वधर्मयोगे नियजन्ति मामका निरन्तरं छोडितले दृढव्रताः माजातु तेज प्रभुवेन्महन्दिवीं तितीक्षया ते तपसा विद्यया च दे दीप्यमाने जितदेवतानां कुले स्वयं <laughs> ब्रह्मण्यदेव पुरुषपुरातनो नित्यम् हरिर्यज्जरणाभिवन्दनात् अवापलक्ष्मी मनपायिनीम् यशो जगद्पवित्रम् च महत्तमा गृणिः यस्येवया शेषगुहाशयश्वराम् विप्रियस्तु सति काममेश्वर तदेव तद्धर्मपरैर्विनीतै सर्वात्मना ब्रह्मकुलम् निषेव्यताम् पुमान् लभेतान्नतिवेलमात्मन प्रसीदतोऽत्यन्तसमंशत स्वयं यन्नित्यसम्बन्धनिषेवयातत परं किमद्रासि मुखं हविर्भुजाम् अस्नात्यनन्त खलितत्वकोविदे श्रद्धाभुतं यन्मुखयज्ञनामभिः न वै तथा चेतनया बहिष्कृते हुतासने पारमहंसपर्यगुः यद्ब्रह्मनित्यं विरजं सनातनं श्रद्धा तपो मङ्गलमौनसंयमे तमाधिना विव्रतिहार्षतिष्टये यद्रेदमादर्शैवावभाषते तेषामहं पादसरोजरेणु मायावहेयाधिकिरीटमायु यं नित्यदा बिभ्रत आशुपापं नस्य तुमं सर्वगुणा भजन्ति गुणायनं शीलधनं कृतज्ञं वृद्धाश्रयं संवृणुतेऽनुदम्पलः प्रसीदतां ब्रह्मकुलं गवां च जनार्दनसानुचरस्य मह्यं नैतेवाच इति ब्रुवाणं नृपतिं पितृदेव द्विजातय तुष्टुर्विशिष्टमनसः साधुवादेन साधवः पुत्रेण जयते लोकानि च सत्यपति पापो ब्रह्मदण्डहतपापो यद्बेनोद्यन्तरत्तपः हिरण्यकस्य पुस्यापि भगवन्निदेया तपः विवक्षुरत्यगास्तु नो प्रह्लादस्यानुभावतः विर्वर्यपितपृद्व्यां समासञ्जीवशाश्वती यस्येति स्यच्युते भक्ति सर्वलोकैकभर्तरि अहो वयं सद्यं पवित्रकिते तय्येव नाथेन मुकुन्दनाथाः य उत्तमश्लोकतमस्य विष्णो ब्रह्मण्यदेवस्य कथां जनक्ति नाद्यद्भूतमिदं नाथ तवादिभ्यां शासनम् प्रजानुरागो महताम् प्रकृतिकरुणात्मनाम् अद्य नस्तमस पारतयोपासादितः प्रभो भ्राम्यतां न स्वीणां कर्मभिर्दैव संहितये नमो विवृद्धसत्त्वाय पुरुषाय महियसे यो ब्रह्मचत्रमाविश्य बिभर्तीदं सतेजसा श्री श्रीमद्भागते महापुराणे प्रभंसां चयितायां चतुर्संस्कन्धे एकविंशोऽध्यायः